एतमस्माकमभिन्नमस्माकमृतमस्माकम् देवोऽस्माकम् ब्रह्मास्माकम् दे स्वस्माकम् यज्ञोऽस्माकम् भजोऽस्माकम् प्रजास्माकम् वीरास्माकम् तस्मादमम् यत् प्रजामो माहाष्यायणमुष्यः पुत्रमसौजः चर्ग्राजा पाशान् मामो चेत् तस्यैदम् मर्चस्तेन प्राणमायुरेष्टयामिदमे नराञ्चलम् वादयामि जितमस्माकमुद्भिन्नमस्माकमदमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्वरस्माकम् यज्ञोऽस्माकम् मदमोऽस्माकम् मया अस्माकम् मेला अस्माकम् तस्मादम् निर्भया मो मामुष्यायण मोष्याः पुत्रमगो यः सर्वस्यान् मामोजि तस्यैदम् मत्यस्तेजः प्राणमाशुम् निवेष्टयामिदमेतमधराञ्चम् पावयामि इदमस्माकमुद्भिन्नमस्माकमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्व ते अस्माकम् निज्ञास्माकम् पशवोऽस्माकम् प्रजास्माकम् वेदा अस्माकम् तस्मादमुम् निर्भयामोहामुष्याजममुष्याः पुत्रमसोरः सोऽभोद्यापजान्मोति तस्यैरम् मध्यस्तेन प्राणमायम् निवेष्टयामि इदमे नमधरान्तम् पादयामि इदमस्माकमुद्भिन्नमस्माकमृतमस्माकम् पेजास्माकम् ब्रह्मास्माकम् स्व अस्माकम् निज्ञा अस्माकम् भजवोऽस्माकम् प्रजास्माकम् वीरास्माकम् रसमाहारमुन् निर्भरयामो महावष्यायणमौष्याः पुत्रमसौजः सर्वोत्यापायान् मामाजि तस्य इदम् वर्चस्तेन प्राणमादिवेष्टयामि इदमेलमसहराञ्चम् पालयामि य अस्माकम् बिन्नमस्माकम् मृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्म अस्माकम् यज्ञस्माकम् वदोऽस्माकम् वजा अस्माकम् वीरा अस्माकम् कस्मादमम् निर्भजामुष्यायणममुष्याः पुत्रमधौ तपन्मा तस्येदम् मध्यस्तैदः प्राणमायम्यमेष्टयामिदमेदपधराञ्जम् पादयामि इदमस्माकमभ्यन्नमस्माकमदमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्व अस्माकम् निष्माकम् पजवोऽस्माकम् प्रजा अस्माकम् वेदास्माकम् तस्मा नमम् निर्भया मुमाहामुष्यायणमुष्याः पुत्रमनौजः तदेव तस्तेदम् वच्चस्तेन प्राणमायम्यवेष्टयामिदमे न महराञ्चम् पालयामि इदमस्माकमुद्भिन्नमस्माकमृतमस्माकम् गजोऽस्माकम् ब्रह्मास्माकम् स्व अस्माकम् निज्ञास्माकम् पदवोऽस्माकम् प्रजास्माकम् मीडास्माकम् अस्मादमुम् निर्भाजामुष्या जनममुष्याः पुत्रमसौरः सबृहस्पते पाशान् मामोहवते तस्येदम् वर्जस्तेरः प्राणमायव्यमेष्टयामि दम रमेरमधराञ्चम् पादरामि इदमस्माकमुद्भिन्नमस्माकमृदमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्व अस्माकम् यज्ञोऽस्माकम् प्रजास्माकम् प्रजा अस्माकम् मेरा अस्माकम् तस्माः समुन्निर्भजामो महामुष्याजडमुष्याः पुत्रभौरः स प्रजापाते पाशान् मामोजे तस्यैदम् वर्चस्तरः प्राणमायम् निवेष्टयामि तमे नमधराञम् पादरामि इदमस्माकमभ्यन्नमस्माकमृतमस्माकम् कैदास्माकम् ब्रह्मास्माकम् स्परस्माकम् जग्ोऽस्माकम् वशवोऽस्माकम् प्रजास्माकम् मीरास्माकम् तस्मादमुन्नभ्रजा मोमुष्यायोष्याः पुत्रमरोदः सर्षेणाम् पाशान्माजे तस्येदम् मज्जस्तेज प्राणमायम् निवेष्टयामेदमेदमराञ्चम् पालयामि जिदमस्माकमुद्भिन्नमस्माक मृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्व अस्माकम् यज्ञास्माकम् पशवास्माकम् प्रजा अस्माकम् वीरा तस्माः रमम् निर्भजा मो मामुष्यायणमुष्याः पुत्रमनोजः सारणाेदम् वज्रस्तेन प्राणमायम् निवेष्टयामि रमेण मधराञ्चम् पालयामि इदमस्माकमभ्यन्नमस्माकमृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्वरस्माकम् यज्ञा स्माकम् पशमोऽस्माकम् भजा अस्माकम् मीरा अस्माकम् भजा ममष्यायममुष्याः पुत्रमधोरः सोम्येरसाम् भाषान् मामो तस्यैरम् वर्त्यस्तेन प्राणमाजम् निमेष्टयामि रमे नम् पादयामि इदमस्माकमुद्भिन्नमस्माकमृतमस्माकम् देदोऽस्माकम् ब्रह्मास्माकम् स्व अस्माकम् निज्ञास्माकम् पशवोऽस्माकम् भजा अस्माकम् वीरा अस्माकम् अस्मा समुन् निर्भज ममामुष्याय ममुष्याः पुत्रपदमुजः साहम् तस्य इदम् वच्चस्तेन प्राणमायुर्वेदेष्टयामि इदमेन धराञ्चम् वादयामि इदमस्माकमभ्यन्नमस्माकमृतमस्माकम् तेनस्माकम् ब्रह्मास्माकम् स्वस्माकम् यज्ञा अस्माकम् वजमोऽस्माकम् प्रजा अस्माकम् क्रीडा अस्माकम् कस्माः नमम् निर्भज मोमाहामुष्यायणममुष्याः पुत्रमसौजः स्वधर्वणाम् पाशान् मामोजि कस्यैदम् वर्चस्तेरः प्राणमाजम्यवेष्टयामि रमेरमधराञ्चम् दम पादयामि ितमस्माकमभिन्नमस्माकम् मृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्व अस्माकम् यज्ञोऽस्माकम् अथवोऽस्माकम् प्रजा अस्माकम् वेदा अस्माकम् तस्मादमम् तस्यैदम् वर्गस्तेजः प्राणमायुर्वमेष्टया वेदमेराञ्च वादमि जितमस्माकमुर्भ्यन्नमस्माकमृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्वरस्माकम् यज्ञास्माकम् पथवोऽस्माकम् प्रजा अस्माकम् वीरा अस्माकम् तस्माः नवम् निर्वायामो महामुष्यायणमुष्याः पुत्रमधौनः शमनस्पतिः नाम् पाशान्माचि तस्य इदम् वचस्तयजः प्राणमायम् निमेष्टयामि तमे रमथनाञ्चम् पादयामि इदमस्माकमभ्यन्नमस्माकमृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्वरस्माकम् यज्ञास्माकम् पशवोऽस्माकम् प्रजा अस्माकम् वीरा अस्माकम् तस्मादमुम् निर्भजा माष्यायडममुष्याः पुत्रमसौजः सवाहानस्पत्यानाम् पाशान्माचे तस्येदम् वजस्तेन प्राणमाजम् निवेष्टयामि इदमेन मधराञम् पादयामि इदमस्माकमुद्भिन्नमस्माकमृतमस्माकम् देदोऽस्माकम् ब्रह्मास्माकम् स्व अस्माकम् यज्ञोस्माकम् अशवोऽस्माकम् प्रजा अस्माकम् वीरा अस्माकम् तस्माः तमम् व्यवहारमो महामुष्यायणममुष्याः पुत्रमधौरः सर्वनाम् पाशान्मा महोजे तस्यैरम् वर्चस्तैरः प्राणवायुन्यवेष्टयामिदमेरमधराञ्चम् वादयामि जितमस्माकमुद्भिन्नमस्माकमृतमस्माकम् चेजोऽस्माकम् ब्रह्मास्माकम् स्व अस्माकम् यज्ञोस्माकम् पशवोऽस्माकम् प्रजा अस्माकम् वीरा अस्माकम् तस्मादमुन्निर्भजा महोष्यायण ममुष्याः पुत्रमसौजः सार्तवानाम् पाशान् मामहो चेत् कस्यैदम् वच्चस्तेज प्राणवाजम् निवेष्टयामि नादयामि इदमस्माकमभ्यन्नमस्माकमदमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्व अस्माकम् यज्ञस्माकम् प्रशवोऽस्माकम् प्रजा अस्माकम् वीरा अस्माकम् तस्माः नमम् निर्भजामष्याय नुष्याः पुत्रमधौ स्वमासाः नाम् पाषान् मामो चेत् तस्य जम् वस्तेज प्राणमाजम् यदमस्माकमद्भिन्नमस्माकमृतमस्माकम् वेदोऽस्माकम् ब्रह्मास्माकम् स्वरस्माकम् यज्ञोऽस्माकम् पशवोऽस्माकम् प्रजा अस्माकम् वीरा अस्माकम् अस्मादमम् निर्भजामुष्यायण मुष्याः पुत्रपदौ सोऽपाषाणाम् पाशान्मामोचे तस्येदम् मध्यस्तेजः प्राणवायुर्निवेष्टयामि इदमे रमधराञ्छम् पालयामि इदमस्माकमभ्यन्नमस्माकमृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्व अस्माकम् यज्ञास्माकम् पशवोऽस्माकम् प्रजा अस्माकम् वीरा अस्माकम् कस्माः तमम् निर्भजामो माहामुष्यायणममुष्याः पुत्रमसौजः सोः रात्रयोः पाशाम् मामाजे तस्यैदम् मत्कस्तेदः प्राणमायम् निमेष्टयामि रमे दे रमधराञ्चम् पादयामि इदमस्माकमद्भिन्नमस्माकमृतमस्माकम् तैरोऽस्माकम् ब्रह्मास्माकम् स्व अस्माकम् यज्ञोऽस्माकम् भजवोऽस्माकम् प्रजा अस्माकम् मेरास्माकम् कस्मादमम् निर्भजापमाःमुष्याय ममुष्याः पुत्रमधौजः सोऽः संयतोस्तान् मामोदे तस्य इदम् वर्चस्तेजः प्राणमायम् निवेष्टयामि रमे रमः जितमस्माकमभ्युन्नमस्माकमृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्वस्माकम् यज्ञोऽस्माकम् पशवोऽस्माकम् प्रजास्माकम् वीरास्माकम् तस्माः तमुम् निर्भजामो माहाष्यायण मनुष्याः पुत्रमसौजः हद्यावाः पृथिव्यामाति तस्यैरम् वर्चस्तैरः प्राणमाजम् निमेष्टयाभिमे रमधराञ्जम् पादयामि इदमस्माकमभ्यन्नमस्माकवृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्वरास्माकम् यज्ञास्माकम् वृषवोऽस्माकम् प्रजा अस्माकम् लीडा अस्माकम् अस्मादवम् निर्भजमुष्याजमुष्याः पुत्र तस्येदम् वृत्यस्तेदः प्राणवायम्यवेष्टयामेदमेदमधराञ्चम् पालयामि जितमस्माकमुद्भ्यन्नमस्माकमतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्व अस्माकम् यज्ञस्माकम् तस्माः समम् निभ्राजामष्यायणमुष्याः उक्तमहौजः समिद्रावरुणयोम् मामाजे तस्य इदम् वर्तस्तैजः प्राणवायुर्निवेष्टयामि इदमेदमधराञ्चम् वादयामि इदमस्माकमुद्भिन्नमस्माकमृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्व अस्माकम् यज्ञास्माकम् पशवोऽस्माकम् प्रजा अस्माकम् नीरास्माकम् तस्मादमम् निर्भाजामुष्यायणममुष्या पुत्रमसौजः स राज्ञो वरुणस्य मामोदि तस्येदम् वर्तस्तेरः प्राणमाजम् बाधयामि इदमस्माकमुद्धिन्नमस्माकमृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् अस्माकम् जगास्माकम् पशवोऽस्माकम् प्रजा अस्माकम् पीडा अस्माकम् तस्मादमम् निर्भज मम महामुष्याय न मुष्याः पुत्रमसौजः स मृत्याप्राण्यैः पाशाम् मामादि तस्यैदम् मध्यस्तेरः प्राणमायम् निवेष्टयामिदमे रमधराञ्चम् दम वादयामि इदमस्माकमभ्यम् नमस्माकमभ्यष्टाम् विश्वाः प्रदनादि तदगिराः तदसोपोषामाह धात्सु कृतस्य लोके अजन्मस्वास्वारजम्मशंसोर्यस्य ज्योतिषायम् पस्य भूयाजय वसोमान्यज्ञो वसो वंश्यषे जय वसोमा भूयासम् ओ इति षोडशम् काण्डम् समाप्तम् अथ सप्तदशङ्काण्डम् ओ विशास हिन्दह मालम् सा सहालम् सहीहीरांसम् स्वहमानम् सहोजितम् सर्जितम् गोजितम् सन्धनाजितम् एद्यन्नामक्वरिन्द्रमायस्वारम्भो यासम् विशास हृन्दहरालंसा सहालंस हीहीरांसरम् सहमानम् सहोदितम् सर्जितम् गोदितम् सन्धनादितम् येजन्नामप्रन्द्रम् प्रियो देवानाम्भोयासम् विषासहिम् सहमानम् सासहानम् सहीयांसम् सहमानम् सहोदितम् सर्जितम् गोदितम् सन्धनादितरम् ये जन्नामबहरीन्द्रम् प्रियः प्रजानाम्भोयासम् विशासम् स हर्मानं सहानं सहीहीरांसन् सहर्वानम् स पवितम् सर्जितम् गोवितम् सन्धनाजितम् एपरन्द्रम् प्रियः प्रसूनाम्भो रासम् विशाचकं स हर्मानम् सहम् सहीरांसन् सहर्मानम् सह पवितम् सर्जितम् गोवितम् जन्नामपर इन्द्रम् प्रियसमानानाहम्भूयासम् उदेक्षिदेहितोजयवर्जसामाद्युदे गृहम् मह्यम् मृध्यमारे सुन्दरे द्विष्णो बहुधा वीर्याणि तन्नः प्रणे परिसरधाया उदेक्ष्युरे जयवर्ज श्चन ते सोमासुमाकुधान्न प्रणेहि मजुभिर्विश्वरोपे स्वधायाहम् माधे वरन्सीले अप्तः आन्तर्ये पाचिदमुपतिष्ठन्त्यत्र यत्त्वाशस्तिम् व्यवहमारुक्षरेताम् समाहमृण सुमहसौ देशस्याम तवेत् विष्णो मुधा वीर्याहाणि वन्दः प्रणेः वसुधर्म विश्वरूपैः सुधायाम् मादेशि वरदे व्यो वन्द वन्दरिन्द्र महदेहो भागाया दब्धेभिः परीपाक्षक्तभिस्तवेत् तृष्णो त्वन्न प्रणेहि मदभिर्विश्वरो वै सुधायाहम् माधेहि परमे व्योहमन् त्वन्न इन्द्रवतिभिः शिवाभिः सन्तो भव आरोहम् स्थितिलम् निलोदेश्रोमादीडे प्रियधास्तरे दवे द्विष्टबुधा वीर्याणि त्वन्न त्वमिन्दाधिविश्वरभूतस्त्वमिन्द त्वमिन्दम् सुभवम्पतवेद्यष्टधायाम् मावेः परमेदासिनत आपूर्वशिपालमन्तरिक्षे अलब्धेन ब्रह्मणावावधानः स त्वन्न इन्द्रदिविधर्चम् मारच्छतमेष्णो बुधान्न प्रिणेहि पदभिर्विश्वरोपये स्तुतायाम् माधेः परमे यात इन्द्रतनोरप्सुजा पृथिव्याय यान्तरग्नो याता इन्द्र पवमाने सर्विति यरेन्द्रतम्वाहा आन्तरिक्षम् व्यापितदयाः दरेन्द्रतम्वाहात वेद्यष्टोकुधार्याणि त्वन्न प्रणेहि वरभिश्वरोः वये सुधायाः माधेः परमे व्यवन् न्द्र ब्रह्मणा वर्धयन्तः सत्रम् त्वष्णोपबुधा वीर्याणि त्वन्नः प्रणेहि वजभिश्वरोपये सुधायाम् माधे हि परवेद्यो हो वन् तन्त्रम् संवर्ये श्रुच्छम् सहस्राधारम् विदथम् स्वर्विदम् तवेत्विष्णो बबुधा न्न प्रणेहि वजभर विश्वरो वये सुधायाहम् माधेहि परणेप्योहवन् त्वम् रक्षते प्रतिशश्च न भासि विभासि त्वमिमा विश्वापवरणानुज बन्धामन् वेधि विद्वांस्तवे द्विष्ट बुधा मेत्याहारि त्वन्नः प्रणेहि वजभरविश्वरो वये सुधायाहम् माधेहि परमेप्योहवन् पञ्चभिः पराहं तपस्ये कर यार्वाङ्मेषिशुतिरेष्टमेः वरुधर्मश्वरोपे सुधारिणाम् आधेहि परहेन् मविन्द्रष्टम् नारेन्द्रष्टम् लोकष्टम् प्रजापदिः त्वभ्यम् यज्ञोपितायते त्वभ्यम् जह्वदि जःपदस्तवेत् विष्णो बहुधा वीर्याणि त्वन्नः प्रणे मदृशरोपये सुधायाम् माधेरन् असदितप्रतिष्ठितम् सति भूतम् प्रतिष्ठितम् भूतम् ह भव्या आहीतम् भव्यम् भूते प्रतिष्ठितम् तवेत् विष्णो बहुधा वीर्याणि त्वन्न प्रणेः पदपरविश्वः परि सुधायाहम् माधे परमेव्योऽभ्राजोधि सयता त्वम् राजरताभ्राजोऽस्येवाहम् भ्राजरताभ्राज्यासम् रुचिरधि रोचोधि सयता त्वम् रुच्याः रोचोऽस्येवाहम् वसुभिष्ट ब्राह्मणवर्चासेन चतुर्थिषीय उद्यायते नमः उदीताय नमः विराजय नमः स्वराजय नमः नमाः आश्रयते नमो स्तमेश्व नमोऽ नमः विराजे नमः स्वराजय नमः सम्राजय नमः उदयराजय नो विश्वेन तपरसा सह समग्रान्मह्यम् रन्ध्रयन्माचाहम् देशते नन्तवेद््यबुधा वीर्याणि तन्नः प्रणेहि परिसर्वशिशरोः वै सुधायाहम् माधेहि परमे व्यामन् आदित्यैर वयमानुक्षशदाित्राम् स्वस्तरे अहर्मात्यम् सत्रादिपादय नवय वयमाश्च आ सीमाह सदी पारेण ब्रह्मण ब्रह्मणा कश्यप ज्योतिरा चारिश सहस्राहकृत श्रेण परिहीर्तो ब्रह्मणा वर्मणाहम् कश्यपश्च ज्योतिषावर्चसा मापन्विष बोधैशाया मामानुषीरवदृष्टावधाय वृणेन गुप्तऋतुभिश्च सर्वैः भूतेन गुप्तो भव्ययेन चाहम् मामा प्रापमात्मा बोधवृत्तिरन्तर्गेहंसलिलेन वाचः अद्य मारागोक्ता परिपाद विश्वत उद्यन् सौर्योदता मृत्युपाया ऋच्छन्ति पर्वदाध्रुवसहस्रम् प्राणामय्याय दन्ता इति सप्तदशम् काण्डम् समाप्तम् ओम। अथाष्टादशङ्काण्डम् ओचिसम्ख्यावृत्रापुरोचेवा ते सखा सख्यम् वश्चेतत्सलक्ष्माय द्विशोरोति महस्पुत्रासो असोरस्य मीराधिमो धर्तार उर्विजा परिक्ष्यन् विशन्ति घाते अमृताश एतमेकस्य नित्यय सम्मत्यस्य निदे मनोमरसिद्धायस्मै जन्यपतिस्तन्मा आमावीविश्यायपुरा च गृमागद्धो न मृतम् वदन्तो अनृतम् रपे वा गन्धर्व अप्सव्याः चोषासा नौ नाभिः परमम् जामितम् नोः गर्भेऽनुनव जनिता दम्परीनेवष्टाः सविता विश्वरोप न कीलस्य प्रवेणन्ति व्रता निभेदनामस्य पृथिवी उदरध्योः को अद्ययम् ते धुरिका हृतस्य हिमीहे वतो वामिनो धुर्णायो आसन्निशोऽत्सरीभात् कोमश्च प्रथमस्यान्धः करैः ददर्शय प्रवोचत् बृहन्मित्रस्य वरुणस्य रामगदुप्रवाहो वीत्यावायम् याङ्गामागन् समाने नो नो सहशिया येव पत्येः तन्वम् दीक्षाम् विदृत्येव रथ्ये वचक्रा न तिष्ठन्ति न निमेषम् ते ते देवानाम् दे स्वयमिहरेदन्ति अन्येन मदाहरणो याहितोऽयम् तेन निवेहरथ्ये वचक्रात्रिभिरस्मारभिरशेत्सौर्यश्च चक्षुर्मुन्मीमीयात् विवाहपृथिव्यापेथुना सम्बन्धो यमेर्यमस्य वर्घातजाहामि आघाता गच्छानुत्तर राजुगानि यत्र जामय कृणवन्नजाहामि उपमद्बहिर्षभाज बाहुमन्यच्छस्व तु भयेव किम् भ्राताः सत्यत नाथम् भवाति किमुष्मसायन् निर्वेदन् निगच्छात् कामोता बह्वे े तम् माम् सम्पे वृद्धि दतेः नाथम् संयत्रा वस्मिरतेः तरोम् तन्माः सम्पृच्छ्याम् अन्येन मत्रमुदः कल्पयस्फलनिर्भ्राताः सुभगेवष्टेटरे न माभूदे तन्मा सम्पृच्छ्याम् पापमाहुर्यवसाहारम् निगच्छात् असञ्जलेतम् मनोसो हृदो मे भ्राताश्वरीरा व्रतो व्रता मनोहृदयम् चाविदाम अन्या चिलक्ताम् कक्ष्ये मुक्तम् परिष्वजातैलिबुजेव वृक्षम् अन्यभूजम्यन्यवृत्ताम् परिष्वजात इलिबुजेव वृक्षम् त्तम् मन इच्छासवातवाधाः कृणुष्व संवितम् सुभद्राम्दाहंसि कवचो विजयतिरे पुररूपम् दर्शरतम् विश्वलक्षणम् आपो वाता वोचरथस्तान्येकस्मिन् भुवनार्पीतानि वृषा वृष्णेः दुदुहेदोहसादिमप्पजाहंसि जक्मो अधीते रथाहव्यः ना ना रो नो यथाधिजा स निज्ञो यजति निज्ञिया प्रपद्गन्धर्वीरव्याः च योष नानदस्य नादे परीपातु नो मनाः इष्टस्य मध्ये अतीतिर्विधाः तु नो भ्राता ज्येष्ठ प्रथमो विमोचति शोचिन्नु भद्राक्षुमति यशस्वत्युषा उवास बलभे स्वर्वती यदि हि मुषन्त मुषयता मनुग्रतोमग्निर्भोतारम् विदधाय जीरन अहत्यम् तप्सम् विभ्रम् विचक्षणम् यदा भारतिभिरक्षेण विषयो मिषते तस्मवारिलाः अग्निम्भोताहारीरजायता सदा शिरण्ष्यते होत्राः विरग्ने मनुषस्वध्वरः विप्रस्य मायक्षमानमुक्थ्यो वायुक्षसुजासिभिः जाराभगमिष्यति विभक्तिर्वन्निष्वपश्यतेः परस्तमिष्यते असुरोस्तेः अग्ने सुमत्तो रक्षत्सहस्रो अतिथप्रचृम्बे धानो वहमानो अश्व सदेवस्ते युक्ष्मूर्तस्य आनो महरोदशीदेव पुत्रे मा किर्देवानामपभूरिहस्याः यदग्नदेशासवीतिर्भवादिदेवी देवेषु यजदायचत्रा च यद्विभयाः च स्वभावो भागम् अत्र रवसो मन्तम् अन्मग्निरुढत अवग्रहमक्षरन्वहारिप्रथर्मो जातवेशूर्य कुशसोऽनुरश्मीर्यावाः पृथिवी आमीवेश प्रत्यग्निरुढत अवङ्ग्रहक्षप्रत्यहारि प्रथमो जातवे यस्य बोधा च रश्मीम् पृथिव्या वा पृथिवीपातदाना द्यावा क्षामः प्रथमे हृतेन विश्रामे भवतः सत्यवाजा देवोऽयम् वर्ता निजदासे तोता प्रत्यङ्मसंयन् देवो देवान् परिवोर्तेन महानुभव्यम् प्रथमश्चीकृत्वान् धोमगे तु सविधा भारुजीको मन्द्रोदाचारी अत्याविम् वर्धायापो घृण स्मो भो तम् रोदहीरे अहायत्ते वासो नीतिमानिर्मध्मात्रपितराम् स्वावद्देवस्यावृतम् यदि गो गतो जातासो धारयन्त पुर्वी विश्वेः देवानुदत्ते निषीडिव्यम् कृतम् वा राजा जगृहे गणस्यादितम् च गृहाणो विवेद मित्रश्चिद्भिस्माजुहुराणो देवान् च लोको न जातारपि वाजोऽस्ति दुर्मम् पत्यामृतस्य नाम सलक्ष्माजज्ञशोरूपाभवादि यमस्य नवदे सुमन्तग्ने तमिष्वश्च प्रयच्छन् यस्मिन् देवा विदधेवादयम् विवस्वरः सरदे धारयन्ते सूर्ये ज्योदधर्मा स्याप्तो अजस्रा यस्मिन् देवामङ्मादि सञ्चरम् च वीक्षे न वयमस्य मित्रो नो अत्रादितिरनाहागात् सविता देवो वरोणाय वधायामहे ब्रह्मे सुरवोदमालकृष्णवे श्रवधास्यति श्रुतो वृत्रहत्ये नवत्रवो नो अतिजो रजति ो लक्षामतेः सु पृथिवीम् महीयो माता भोमौ निहरोणो युज्यमानो आज्ञशोकम् स्विः श्रुतम् गर्तसरम् जनाहाराम् राजाहारम् हेमोपातुमग्रहम् इत्रे लुक्तस्तमाहारोऽन्यमस्मत्ते निवपन्तु सैन्यम् सरस्वतीम् देवयन्तमो भवन्ते सरस्वतीव द्वरे ताजमाहारे सरस्वतीम् सुकृतो भवन्ते सरस्वतीवालयम् सरस्वतीम् पितरो भवन्ते दक्षिणा यज्ञमभिलक्ष्यमाणाः आसद्यास्मिन् परिगिणे मादध्वानमेवायश आधेय यस्मे सरस्वति यदा शरथम् ययातोसे स्वधाभृर्देवि पितृभिर्मदन्ति सहस्राभ्यमित्र भागम् राजस्फोटम् यजमानाय धेहि मुनीहीरतामवरवरावम् <देणाँदामा> मध्य वा पितरः सोम्यासाः असंज्ञयी गुरविकारास्तेनो भवन्तु पितरो हदेशो आहम् विक्रयम् स विदत्ताहम् अवित्सिलपाः तम् च विक्रमाणम् च विक्ः बर्हितोः सुतस्य भजम् दविश्वस्त इदम् विदर्भ्यो नमः अस्पद्यः सोदे अमाराध्येवरजस्यानिषत्ता देवाः नूनम् स भृजनाः सु दिक्षो मातालीतव्यैर्यमो अङ्गेरोभिर्बृहस्पतिर्भिर्वा वृथाणः द्यांश्च देवा वा मधुरजे च देवांस्तेन हवेहेषु स्वादुष्टिलायम् मधूमाम् उदारम् ते व्रष्टिलायम् रसर्वाम् उदारम् उदमाम् वा आस्यमाम् समिन्द्रम् न कश्चन परे यवाम् सम्प्रमतो महेरी भवभ्यः पन्थाः मनुपस्पशाम् वैवस्पदम् सङ्गमानम् जनानाम् यमम् राजानम् हरिराः सपरि यथा यमो नोः गातुम् प्रथमोऽपि वेदनैषा गम्यो देवभर्धनाः पूर्वे बर्षीडरप्यदरभोत्या आर्वागिमा वो हव्याजग्रमाजुषभ्रम् आगतावसाशन्त मेनाधाः नशय्यारमोदधाता दक्षिणयोषद्येतन्मा हविरभिक्रीडन्तु विश्वे माह्यम् षष्ठपितरः केन चिह्नयत्रागः पुरुषागमा स्पष्टाः वा हृतुम् क्रीणोति तेनेदम् विश्वम् भवानम् समेहेति यमस्य माता परिष्टमाहारामहोजायश्व प्रेहि प्रतिभिः स्तोणेन येनाः देवोरवे विदः परेताः उभा राजाहारो स्वधयापदम् तौ यमम् पश्यासी देवम् अभयवेतपदा एवम् विदरोहो लोकमग्नन् अहोभिरद्भिरक्तपर्यक्तम् नमोददात्ववसानमस्मै उशन्तस्ते धेनुश्रिदन्तः समेधीमहि उशन्नुषटावह पित्रेर् नवे अक्तमन्तस्ते धीमुः समेधीमु युमान्यो मरह पित्रेऽन्यत्रे अङ्गेरसौ पितरो नवग्धानः सोम्यासाः रेजम् सौमतो यज्ञयाः नामपि भद्रेऽसौ मनसेस्याः अङ्गेरोभिरयज्ञे राजमावेरोपरिहमानयस्मा विरस्वन्तम् भुवेयः पिता तेऽस्मिन् वरिहिष्या निषर्द्या किमयमप्रस्तरमाहयोःभिः संविधानः आत्त्वा मन्त्राकविशस्तावहन्ते नाराजन्हविषोः मादयस्व इद एत उदारोहन् निवस्पृष्ठान्यारोहन् प्रभोर्जयो यथा यथाद्यामङ्गेरसो ययोः